विलोकिनीं भगवतीं मुखीं सङ्कीर्ष्णा ीश्वरी ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः गणाना आं खा गणपतिपत्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्म पदमागणपदै देवी सर् टु टुगेदर् टु टैम्स् स्त्री सूक्तम् इफ् यु हव् द मन्त्रपुष्पम् इट्स् आन् पेज् फोर् जीरो त्री वि लेर्ड् इटिल् मायान्तरायाश्च बाह्यालक्ष्मीः रैट् ठीक है मीरा अब ये लर्न सो अप टू दैट ओम हिरण्यवर्णम टिल दैट वी विल डू ट्वाइस टुगेदर ओके देन वी विल प्रैक्टिस इंडिविजुअली रेडी 1 2 3 ओम न्यावत्सोबुनि नि वे जातवे गो लक्ष्मी मनपगामिने बिङ्गामयम् श्रीवीमुखेष्माण्यं <laughs> तद्वयन्ति <laughs> <laughs> <laughs> <laughs> <laughs> <laughs> हं प्रपदे नश्यतां मां प्रणे ओके फ़र् एवडिको टैन् टु त्रि ॐ हिरण्यपेण्मयि लक्ष्मि िरण्यं शेषं का पुरुषाणाम् अश्व पूर्वा प्रथमज्ञा अति प्रियम् ेवरण्यं वे नृपां तर्पयति णे पाद Ya bareng ya tenang dapat semua ilmu dan wani. Satya phala nitavana rutak dipaya. Paśya takṣī. So who wants to practice on their own Uh, excuse me, Harim, I have something wrong with my phone. I'm going to log in again, okay? Okay, no problem, okay? Okay. I can go? Okay, Sujada will go first. Om oh, Dhiranya Varnam Harimim Suvarna Rajatas Rajam Chandram Hiranmayim Lakshmim Jata Vedo Maavaha आवह जातवेदो लक्ष्मी मनपग्गामिनी यस्याम् हिरण्यम् विन्देयङ्गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनी श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुष्टताम् काम् सोस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्रा प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुधाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्येर्लक्ष्मीर्मे नश्यताम् त्वामृणे आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोत बिल्वः तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः वेरिगुड् चन्द्रा ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां चन्द्रां हिरण्ययीं लक्ष्मीं जाधवेदो म आवह त्वां म आवह जाधवेदो लक्ष्मीमपन् मनपगामिनी यस्यां हिरण्यं विन्देयं गाम्यं पुरुषानहम् अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनी श्रियं देवीमुपह्वये श्रीर्मादेवर्जुषताम् श्रीमादेवीर्जुषताम् श्रीर्मा देवीर्जुषताम् काम् सोस्मिता काम् सोऽस्मिताम् हिरण्यप्राकारा मार्द्राम् <laughs> चलन्तीम् तृप्ताम् तर्पयन्तीम् पत्ने स्थिताम् पद्मवर्णाम् तामि पोक्तामि होपक्ह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पत्निनीमीम् शरणमहम् प्रपत्ये अलक्ष्, अलक्ष्... अलक्ष्मीर्मे नश्यताम् त्वामृणे आदित्यवर्णे तपसो तपसोऽधिजातो वनस्पतिस्तवृक्षोथ विल् तस्य फलानि तपसानुद्गन्तु मायामदरयास्य बाह्या अलक्ष्मीः वेरी गुड वेरी वेल डन एंड ओनली थिंग इज दैट ताम आवह आई थिंक यू सेड twam avaha ओके जस्ट मेक श्योर दैट यू सेड ताम आवह सेकंड सेंटेंस एंड थर्ड सेंटेंस ओके ओह दिस ताम आवह ओके ओके ताम ओके वेरी गुड Don't say Tvam, say Tam. Uh, oh, yeah, it is Tam. Yeah, Tam. Very good. Who wants to go next? Can I go? Sure, yes. Om Om Om Om Om Om Om Om Om Om चन्द्रां हिरण्मयीं लक्ष्मीं जाधवेदो म आवह सा म आवह जाधवेदो लक्ष्मी मनवगामिनी यस्यां हिरण्यं विन्देयं गामस्वं पुरुषानहुम् अश्वपूर्वां तथमध्यां हस्तिनादप्रबोधिनीं श्रियं देवीम् उवह्वये देव्यद्विषतां कां सोस्मितां चिरण्यप्राकाराम् आर्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं पत्ने श्रितां पद्मवर्णां तामिहो बह्वये श्रियं चन्द्रां प्रहासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् रणमहं प्रवध्ये लक्ष्मीर्मे दश्यतां त्वां आदित्यवर्णे तपसोभिजा वृक्षोधिल् तस्य फलानि तपसानुदन्तु मायां तदा बाह्या अलक्ष्मीः नेक्स्ट् ऐ विल् गो नेक्स्ट् हरि ओम् ॐ हिरण्यवर्णां हरिणीं सुवर्णरजस्रजां चन्द्रां हिरण्मयीं लक्ष्मीं जाधवेदो म आवह तां म आवह जाधवेदो लक्ष्मीमनपगामिनीं यस्यां हिरण्यं बिन्देयम् म् पुरुषानहम् अश्वपूर्वां देवी अस्तिनादप्रदो प्रबोधिनी देवीमुपह्वये श्री श्रीमादेवीर्जुषताम् कां सोस्मिताम् हिरण्यप्राकार ृप् स्थितां पद्मवर्णाम् तामीहोपह्वये श्रियं चन्द्रां प्रभासाम यशसा ज्वलन्तीम् श्रियं शरणमहम् प्रब्ये लक्ष्मीर्मे नश्यताम् त्वां वृणे आदित्यवर्णे तपसोदिजातो वनस्पतिस्तवृ बिल्वः तस्य फलानि तपसानुदन्तु मायां त रायास्य बाह्या अलक्ष्मीः वेरि गुड् इस् इस् पत् बुक् इस् इम् प्रब्ये िरण्यवर्णां हरिणीं सुवर्णरजदश्रथां चन्द्रां हिरण्मयीं लक्ष्मीं जातवे तु यस्यां हिरण्यं विन्देयङ्गामश्वं पुरुषानहम् अश्वपूर्वां कथमध्यां हस्तिनादप्रबोधिनीम् श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषदास्मितं हिरण्यप्रकारमार्द्रं सेकेण्ड् सेकेण्ड् न कां सुस्मितां हिरण्यप्राकारमार्द्रां कां सुस्मितां हिरण्य ृप्तार्पयर्पयन्तीं पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियं चन्द्रां प्रभासं यशसा चन्द्रा ज्वलीं श्रियं लोके देवजुष्टामुदाराम् तां पत्मिनीं पत्मिनीमीं शरणमहं प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वां वृणे आदित्यवर्णेस्तपसोऽधिजातो वनस्पतिस्थव वृक्षो श्च <tasya> बाह्यालक्ष्मीः <tos> i i did okay yeah uh, that's what i thought but you did well I mean compared to that you missed the class you did well yeah. i i did practice so <laughs> okay yeah, if you practice you will get better no problem okay yeah. okay who is next algo okay हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो म आवहा ताम् म आवह जातवेदो लक्ष्मीमनपगामिनी एम् यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुक्पह्वये श्रीर्मा देवीर्जुषताम् काम् सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहो पह्वये श्रियम् चन्द्राम् प्रभासाम यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् ऋणे आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य भलानित पसानु तन्तु मायांत रायास्य बाष्या अलक्ष्मिही। Very good. Everybody is done, right? Uh, I, I got it. I got to go, Ari. Oh, okay. Sorry. Go <laughs> ahead. Om Phranyabarnam Harinim Suvarna Rajatasarajam चन्द्राम् हिरण्मयीम् लक्ष्मीवदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देयङ्गामश्वम् पुरुषानहम् अश्वपूर्वाम् प्रथमद्याम् हस्तिनाथप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीर्पा देवीर्जुषताम् कांसोऽस्मिताम् हिरण्यप्राकारा मार्त्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामि ओपह्वये चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् शोके देवजुष्टामुदाराम् ताम् पद्मिनीम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् फणे आदित्यवर्णे तपसो धिजातो वनस्पतिस्तव वृक्षोऽथ बिल्बः तस्य फलानि तपसा नुदंतु मायां तरायाश चबाख्या अलक्ष्मी ही। Very good. I think everybody is getting this much easier, okay? Maybe the words are simpler or something. Okay, shall we learn the other part after that? Yeah. Okay. उपईतु माम दे बसक्ः Kirtis Chamaninā Saha These little bit long sentences, but I think these will be okay because most of the words are not. So I'll say one more time. <speaking in foreign language> <speaking in foreign language> Upay Tumam Devasakha Kirtis Chamaninā Saha Upay Tumam Devasakha Kirtis Chamaninā Saha उभूत मां देवसख कीर्तिश्च मणिना सह देवसखिसख Okay, it will be Deva Sakaha, but it is followed by a Kakara, it's a Kirtischa, right? So, uh, okay. it will become Deva Sakaha Kirtischa Mani Nasaha, you don't stop there and say Deva Sakaha Kirtischa Mani Nasaha, you just say, because both of them are from the throat, because it's the Visarga become Deva Sakaha Kirtischa Mani Nasaha, okay? Don't stop there saying Deva Sakaha Kirtischa, Deva Sakaha Kirtischa, okay? because the svarga depends on what is before and what is after that in this case what is after okay. that is kakara become devasakha kirtischa okay the name for it also okay it's called uh, jihwa mulia the pronunciation is called jihwa mulia because it comes on the the bottom of your uh, tongue okay that's why okay. uh, so it become devasakha kirtischa maninasa. ओके नेक्स्ट् वन् प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे कीर्तिमृद्धिं ददातु मे ृद्धिं ददातु मे प्राधुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे राधुर्भूतो राष्ट्रे कीर्तिमृद्धिं ददा ओके एनि प्रोब्लम् ओके क्षुत्पासामलां ज्येष्ठां श्रुतिपा ज्येष्ठां लक्ष्मीं नाशयाम्यहम् लक्ष्मी नाशयाम्यहम् जायन् द टु सेण्टेन्सेस् सो वेन् वाट् हापेन्स् ज्येष्ठाम् अलक्ष्मी ज्येष्ठाम् अलक्ष्मीम् ओके इच्छनि श्री श्रुत्पिपासामलां ज्येष्ठाम् अलक्ष्मीं नाशयाम्यहम् जायिन् द ज्येष्ठाम् नलक्ष्मीकम् ज्येष्ठामलक्ष्मीमिकम् ओके श्रुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् श्रुतिपासामला kamalam nashayam yaham shuddhipasamalam jeshtam alakshmi nashayam yaham is okay now shuddhipasamalam jeshtam alakshmi nashayam yaham ृद्धिं चिभूतिमसमृद्धिं च सर्वान् निर्नुद ए गृहात् सर्वान् निर्नुद ए गृहात् निर्नूद मे गृहात् अभूदिमस निर्मृति अभूदिम् असमृद्धिं च सर्वां निर्णुदृहात् ओके सो ऐल् उपयु टिल् हियर्टीस् इण्डिविज्लि ओके Mm -hmm. पैसु माम् देवसखः कीर्तिश्च मणिना सह प्राधुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिम् ददातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वान्नुर्नुद मे ै माम् देवसकः कीर्ति मणिना सहतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे लक्ष्मीं नाश्याम्यहम् अभूतिं समृद्धिं च सर्वां निर्तु मां देवसकः शमणिना सह लोदी <kung government> Okay, everybody? Okay. Any problems? Uh, no hari, problem. but uh, what is the, the Shubti Pasa? Uh, how is that? Shubti Pasa Malam. That's how it is. Shubti Pasa okay. yes. -pa Malam. Shubti Pasa Malam. आधिष्ठाम कलातमलम कृप् बिल्ड द हंगर पिपासा मींस थर्स्ट अमलामु वातम अलक शुप्त पिपासा अभूतिमसमृद्धिं I don't know why I get calm in here. Okay, I'll say that once. अभूतिमसमृद्धिं च सर्वां नृदः इह धाते। अभूतिमसमृद्धिं च सर्वां नृदः इह धाते। अभूतिमसमृद्धिं अभूदिम असमृद्धिं च समृद्धिं समृद्धिं च सर्वान् समृद्धिं समृद्धिं समृद्धिं च हितनोपेतः अभूत मत्समृद्धिं समृद्धिं Okay, Okay, who wants to try this this this on their own? I, I can, can, hurry. can Go ahead. Okay, Mahesh, you go this time, first महेश कीर्तिश्च मणिना सह बादुर्भूतोऽस्मि साष्ट्रेऽस्मिन्कीर्तिमृद्धिम् ददातु मे क्षुत्पिपासामलाम् चेष्टामलक्ष्मीम् नाशयाम् यहम् अभूतिमस्रमृद्धिम् समृद्धिम् च सर्वाम् निर्णुदमे गृहात् भूतिमसमृद्धिं च सर्वान् निर्नुदमे गृहात् अभूतिमसमृद्धिं च सर्वान् निर्नुदमे गृहात् करेक्ट् वेरि गुड् हु इेक्स्ट शुर कुशयि माम माम् देवसखः कीर्तिश्च मणिनासः प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिम् ददातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वान् निर्नुद गृहात गृहात् नै गो हरि शुर उपैतु मां देव सह कीर्तिश्च मणिना सह प्रादुर्बोधोऽस्मि राष्ट्रेस्मिन् कीर्तिवृद्धिं ददातु मे क्षुत्पिपासामलं ज्येष्ठां क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीम् ीं नाशयाम्यहम् अहो दिमसमृद्धिम् च सर्वाम् उभै तु मां देवसकः कीर्तिश्च मणिनासः ुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिम् ददातु मे क्षुप्तिपासामलाम् ज्येष्ठाम् अलक्ष्मीम् नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वान् निर्नुद मे गृहात् उपैदुमां देवसख कीर्तिश्च मणिना सह प्रादुर्बोधोऽस्मि राष्ट्रेस्मिन् कीर्तिस् मृत्युं ददातु मे क्षुपिपाशामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् अभूदिमस सर्वा निर् निर्नुद मे गृहाद् उपै तु मां देव सखकीर्तिश्च मणिना सह भातुर्भूतोऽस्मि राष्ट्रेस्मिन् कीर्तिमस्तिं ददातु मे क्षुक्तिपासामलां देष्टामलक्ष्मी नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वां मन्मुदमे ग्रहादी उपायितु मां देवसखकीर्तिश्चमणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृ कीर्तिमृद्धिम् ददातु मे क्षुत्तिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् मल... अभूधिसमृद्धिम् च अभूतिम अवृद्धिं च भूधिं असमृद्धिं अभूतिम अभूतिम समृद्धिं च स्व सर्वान् निर्नुदमे गृहात् वेरी गुड एवरीबॉडी इज डन राइट डलेमिस एनीबॉडी डस नॉट ओके ओके लेट अस डू प्रोग्रेस फ्रॉम हियर नित्यपुष्टाम् करीषिणी नित्यप्रत्यपुष्टाम् करीषिणी नित्यपुष्टां करीषिणी गन्धद्वारा दुराधर्षाम् नित्यपुष्टाम् करीषिणी गन्धद्वारा दुराधर्षाम् नित्यपुष्टां करीषिणी ओके गच्छन्तु ईश्वरीगं सर्वभूतानाम् सर्वभूतानाम् श्रियम् ईश्वरेगम् सर्वभूतानाम् तामिहोपह्वये श्रियम् तामि ओके देण्टेन्स् मनसः काममापूतिम् मनसः काममाहूतिं डोन् मनसः इस् मनसः काममाहूतिम् मनसः काममापूतिम् मनसः कामूतमाकूतिम् मनसः काम मा कूत सत्यमशीमहि वाचः सत्यमशीमहि वासः सत्यमशीमहि manasa kamama kutem vac satyam shimahih manasa kamama kutem vac satyam shimahih manasa kamama kutem vac satyam shimahih gadoke rachandens ओके पशूनां पशूनां मयि श्रीश्रयतां यशः पशूनाम् रूपमह्नस्य महि श्रीश्रयतां यशः पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः श्रीः श्रयतां बिकम् श्रीश्रयताम् इम्स् लैक् डबल् सकार लैक् नमः शिवायन् ओके नेक्स्ट् वन कर्दमे न प्रजाभूता कर्देन प्रजाभूता कर्द कर्दमे न MAI SAMBHAVA संभव MAI SAMBHAVA कर्दमा मयि सम्भव संभव कर्दमा कर्दमेन प्रजा भूता मयि संभव कर्धमा कर्दमे कर्देन प्रजा Okay. Will do one more chant then. Sriyam vasayame kule Sriyam vasayame kule Sriyam vasayame kule Mataram padma malinim Mataram padma malinim Mataram padma malinim श्रियं पाचय मे कुले मातरं पद्ममालिनी श्रियं श्रियं पासय मे मातरं पद्ममालिनी श्रीयं वासय मे कुले मातरं पद्ममालिनी दोके एनी प्रोब्म् सोफार् ओके सोर् अल् डु फ्रोम् दु गन्धद्वारां ति मादरं पद्ममालिनी मन्सि रिपी टु आके गन्धद्वारां दुराधर्षाम् नित्यपुष्टां करीषिणी एम् ईश्वरे गुं सर्वभूतानां तामिहोपह्व ह्ये श्रियम् मनसः काममाकूतिम् वाचः सत्यमहीमहि पशूनाम् रूपमन्नस्य मयि श्रीश्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दमान् श्रियं वाचय मे कुले मातरम् पद्ममालिनी न्धद्वारं दुरां दुणारा नित्यपुष्पां सुदीशिणी गीतगीतं सर्वभूतानां स्वामि होपयम् मनसः कामस्तां बाल सत्यमशीमही रूपमन्यस्य पशित्वं क्षीरयतां यशः गमेन प्रजायुपात्मयितं भवदर्थमयं प्रियं वासय न्धद्वारा बन्धद्वारा धां शरीषिरी ईश्वरी ईश्वरेकम् सर्वभूता त्यमहीमहे पशूनां रूप पशूनायस्याय श्रीयतां यशध्यदमेन प्रजासम्बामयि सम्भव सर्वं मह्यं वासय मे मे मातरं पद्ममालिह्ने Is that okay for everybody? Yeah. yeah. So who wants to try it on their own? I can look. Okay, go ahead. Okay. Jantavgadadudatashram Lepushtam Kharishini Eem Visharigamsa Pugana <laughs> Gwami Hova Vahyesriyam Manasa पशूनारूप श्रीश्रयकाम्यसहा प्रजाभूता मयि संभव श्रियं वासय मे कुले मातरं पद्ममालिनी गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणी ईश्वरीगं सर्वभूतानां तामिहो बह्वये श्रियं मनसः काम कामाभूतिं वा ीमही अशूनां रूपमन्यस्य मयि श्रीश्रयतां यच्छमेन प्रजाभूता मयि संभव कर्दम श्रियं Okay, okay, नित्यपुष्टां करीषिणी ीम् ईश्वरीक्रम् सर्वभूतानां तामिहोपह्वम् काममाकूतिम् वाचः सत्य मही पशूनाम् रूपमन्यस्य मयि श्री श्रयतां स्रे, यशसा यश यशः यशः कर्दमेन प्रजाभूदा मयि संभव कर्दमा श्रियं वासय मे कुले मातरं पद्ममारिणीं गन्धद्वारां दुराधर्तां नित्यपुष्टां कैषिनी ईश्वरीगं सर्वभूतानां सामिहो बह्नसत्काममाहूदित्यमहीमही पशूनां शुभमन्यस्य मयि यता यतः वादयमे कुले पादरं पत्नमानिही। Very good. Who is next? I'll do Harry. Okay, go ahead. गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् ईश्वरीगम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकूतिम् वाचः सत्यमशीमही पशूनाम् रूपमन्नस्य महि श्रीश्रयताम् यशः कर्तमेन प्रजाभूतायि सम्भव कर्तमः श्रियं पद्ममालिनी वेरि गुड् नेक्स्ट् ओके सुजाता गन्धद्वारा दुराधर्षां नित्यपुष्टां करिषिनी ईश्वरीघुम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकूतिम् वाचः सत्यमशीमहि पशूनाम् रूपमन्नस्य मयि श्रीश्रयताम् प्रजाभूता मयि ईश्वरे ग So So when when you you you are it it be difficult say, GAM, okay? okay, okay? Mm -hmm. but where is good? Mm -hmm. Okay, see, is is is but But together, Good. who ल् हु इो ओके गो हैड् गन्धद्वारा दुराधर्षां नित्यपुष्टां करीषिणी ईश्वरी गम् सर्वभूतानाम् तामिह पह्वयि श्रियम् मनसः काममाकूतिम् वाचः पशुनाम् रूपमन्नस्य मयि श्रीश्रयताम् यशः कर्दमेन प्रजाभूता मयि कर्दमा मातरं पद्ममालिनी विल् कम् नेक्स्ट् क्लास् विल् प्राक्टिस् इण्डिविजली ओके वन् टु त्री उपयेतु मार्तिश्च मणिनाथुर्भूतोऽस्मिरां ददातु मे क्षुत्पिपामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् भूधिमतमृद्धिम् च सर्वान् नोदने गृहात् गन्धद्वाराम् पुरा धृष्टाम् नित्यपृष्टाम् तहिषिणी ेवम् सर्वभूतानाम् कामिकोपये श्रियम् मनसः काममाभूतिम् वाजः सत्यमही मही पशूनाम् रूपमनस्य महि श्रीश्रयकाम्यशः श्रियंजलि प्रस्ट् नेक्स्ट् वीक् इस्ीक् औट् इस् राट् इट् इस्ड् वीक् सो दीट् प्रेक्टिस् रुक्ट् I don't know when Shivaratri is but for Shivaratri we should be prepared so I'm assuming Shivaratri is probably the first week of march is what i'm guessing I don't think Shivaratri is in february I think i read it it is in the third week right actually so technically 18, it's the fourth right? week yeah. but the third week of class okay yeah so let's uh, next week let's practice rudram and chamagam okay i think uh, because uh, i i think we only get uh, probably otherwise to, uh, then we'll finish uh, this sri suktam uh, in the next two classes after that or something and then we'll practice for shivaratri two weeks or something that i'm thinking okay okay let us do three log ah samajhta hai stop for the day लोकाः नो भवन्तु लोकाः लोकाः पुनस्ताः भवनो भवन्तु लोकाः लोकाः पुनस्ताः भवनो भवन्तो शान्ते श्यान्दो यमः